कक्षी वान् गौतमस्ताक्षस्तथा वैश्वानरो मुनिः षडर्तुः कवशो धूम्रोरभ्यो नलपरावसु स्वस्त्यात्रेयो जरत्कारुः कहोलः काश्यपस्तथा विभाण्डकर्ष शृङ्गौ उन्मुखो विमुखस्तथा मुनिः कालकवृक्षीया आश्राव्योऽथ हिरण्मयः संवर्तो देवहव्यश्च विश्वक्सेनश्च वीर्यवान् कण्वः कात्यायनो राजन् गार्ग्यः कौशिक दिव्या आपस्तथौषध्यः श्रद्धा कामश्च विद्युतश्चैव पाण्डवा जलवाहस्तथा मेघा प्राचीदिव्यज्ञवाहाश्च पावका सप्तविंशतिः अग्नीशोभौ तथेन्द्राग्नित्रश्च सवितार्यमा भगो विश्वे च साध्याश्च गुरुः शुक्रस्तथैव च विश्वा वसुश्चित्रसेनः सुमनस्तरुणस्तथा यज्ञाश्च दक्षिणाश्चैवं ग्रहास्ताराश्च भारता यज्ञवाहश्च ये सर्वे तत्र समासते तथैवाप्सरसो राजन् गन्धर्वाश्च मनोरमाः नृत्यवादि प्रगीतैश्च हास्यैश्च विविधैरपि रमयन्ति स्म नृपते देवराजं शतक्रतुम् स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा ैर्दीप्यमाना इवग्नयः स्रग्विणो भूषिताः सर्वे यान्ति च यान्ति चापरे बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै एते चान्ये च बहवो महात्मानो यतव्रताः विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः ब्रह्मणः सदृशा राजन् भृगुः सप्तर्शयस्तथा एषा सभा मैं राजा पुष्कर शतक्रमहो यमी सभा शुणु महाभारत सभापर्व लोकसभाख्या इंद्र सर्णनम सप्तमोध्याय